अङ्गं शृङ्गारतुङ्गं तरुणिमविद अन्तरङ्ग अपाङ्गक्त्रं शीरीतां सुमित्रम् जयतु मधुकरश्रेणिका वेणिका दे दक्षो वक्षो जवारः स्मरसमरसमारम्भ सम्भावनी न्ते क्रान्ते सखीत्वं कथमसि विमुखीं मन्मतेऽपि प्रपन् चे วิภูคีม่านมเทภิประปงเจเอ